परम शिवं वज परमसुखं परम शिवं वज परमसुखं परम शिवं वज परमसुखं परमशिवं शिवं भजा परम सुखं परम शिवं बजा परम सुखो परम सुखं